कृष्णयजुर्वेदतैत्त्रीयसंहितायाम् षष्ठकाण्डे प्रथमप्रश्नप्रारम्भः ङ्करोति देव मनुष्यादिशो विभजन्द्र प्राचीं देवा, दे देवा दक्षिणाभितरस्प्रतिचीं मनुष्याप्रदाय प्राचीनवगो शङ्करोति देवलोकमेव दे तद्यजमान उपावर्त देवरहितो हि देवलोको मनुष्यलोकान्नास्माल्लोकात् स्वेदव्यं वेद्याद्वेदयत्यनुष्मिन् लोकेऽस्ति वा न वेदि लिक्ष्मतिकाशान्करो लोकया रभिजित्ये च स्मश्रवदे नखानि निकर्तते मृता वा एषा मेध्यायत्ये च स्मश्रमृता मे वत्य भो त्वा मेघवैरं लघयन्तो सुदीक्षा तपसि प्रावेशयन्स्नादि साक्षादेवदीक्षा तपसि अवरुन्धे तीर्थे स्नादितीर्थे हि तेदां प्रावेशयन्तिर्थे स्नादितीर्थमेव समानानाम्नात्यन्तरत एव मेध्या भगवति वादसा दीक्षे सौम्यं वैक्षो वन्दे देवतया सोममेष देवता नुवं मे पाहीत्या हस्वामेव देवतामीत्य स आशिषमेवैतामाशा ये स्तु शादानं वायोर्वादपानं विरुणान्निषदीनां प्रभातः नित्यानां विश्वेषां देवानां तर्णक्षत्राणामधिकाशास्तद्वा एतत्सर्वदेवत्यं यद्वासो यद्वाससा दीक्षेत सर्वाभिदेवेण देवताभि दीक्षेतश प्राण वै मनुष्यस्तस्यासिनं प्राणस्याण एव दीक्षितवा नेवास्य प्राणस्तेन सहमेधमुपैलिखतं देवानां निष्पक्वं मनुष्याणां दत्त्वा एतत् सर्वदेवत्यै यन्नवनीतयन्नवनीतेनाभ्यङ्क्ते सर्वा एव देवता प्रीणादिप्रच्यता वायस्माल्लोकाजगतो देवलोकं यो कनीनिकापरापधत्तक्षिणे वभ्राक्षिणं पूर्वमाङ्के सव्यमोहि गौर्वं मनुष्याधावतेष्याधावन्ते पञ्चकृते पञ्चाक्षरा भक्तिस्पान्तो यज्ञमेवावरन्ते परिमितमा न्देव मनुष्या आञ्जदेव सतोलयाङ्गे पदोलया हि मनुष्या आञ्जदेव्या वृत्यैरपदोलयाञ्जितवत्रैव स्यात्सतोलयाङ्गे कृत्वा येन्द्र वृत्रमहंस तदा साञ मेध्यै यज्ञेयभोदेवमासीर्तरोदक्रामत्ते दर्भाभवनयत्तर्भवन्दे ले पवय धिया एव मेधिया यज्ञयास देवास्ताभिरेवेण पवेदि त्वाभ्यां पवेद्भ्य रात्राभ्यामेवैनं भवेति त्रिभिः पवयति त्रये मे लोकायभिरेवेण लोकैः पवयति पञ्चभिः पवैदि पञ्चाक्षरा पञ्च यज्ञो यज्ञा एैनं पवैति षट्भिः षड्वारताभिरेवेणं पवैति सप्तभिः पवयति सत्त्वछन्दाभिरेवें पवैति नवभिः पवैति नवे पुरुषे प्राणास्व प्राणमेवैनं पवयदेकविंसत्या भवेत् दशहस्त्या अङ्गुलयो दशपद्या आत्मैकविकुंशो यषस्थमपैवर्गं पवैति झटपदिस्त्वा पुनः पुन वै जित्वधर्म सैवैनं वाग्पदिस्वा पुनः वित्याह वाैनं पवयति देवस्वा सविता पुनः विद्याः सविदुर्प्रसोद एवैनम् पवयति तस्य दे पवित्रपदे पवित्रेण यस्मैकम् वरे लच्छ्यतेयमित्याहाशिषमेवेतामाशास्ते ो वैदेव यज्ञाय पुनरत एवाभवन एवं यद्वा यज्ञाय पुनीते भवत्येव वै पवयित्वान्धप्रपादयि मनुष्य लोक एवैनं पवयित्वा भूतं देवलाकं प्रणयतिवेण चतस्रो निरीक्षितत्वाय श्रुता पञ्चमेक्षरापञ्जिवान्द्वायज्ञमेवा वरुन्धो स्वाहेत्याहको पुरुषो यज्ञमभिप्रयुञ्जे यजे येति ये मेधायि मनसे नये स्वाहेत्याहमेधयाहि मनसा पुरुषो यज्ञमभिगच्छति सरस्वती भूष्णे नये स्वाहेत्याहमात्मै सरस्वती पृथिवी भूषा वासैव पृथिव्या यज्ञं प्रयन्ता वो देवैर्प्रहृतेर्विश्वशिम्भु वैत्याहयाविश्वा स्वावो देवैर्प्रहृतेर्विश्वशिम्भुवो यदे दद्य ब्रूयात् दिव्या आवोशान्ता इमं लाकमागच्छ देवेर्भुव इत्याहास्मा एव लोकाय शमये लोकमागच्छन्ति पृथिवीत्या वा पृथिव्यो उर्वन्तरिक्षमित्याहान्तरिक्षे हि यज्ञो बृहस्पतिमा हविषा वृथात्मित्याः ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै यज्ञमवरुन्धे यत्रो याद्विधेरि यज्ञस्थानमृच्छेद्वृधात्मित्याह यज्ञस्थानमेव परिवर्णत्य ृष्ट्रहणस्यष्टभाजहोदयज्ञादवात्स बन्धान्यदयच्छन्धमिदीक्षयन्ति सा वा एष ज्ञक्नुष्ठज्ञाधीक्षयति वा सर्वया दीक्षयति विश्वे देवस्य नेतृत्याहसाख्यमित्याह विश्वे रायै वैश्वेण्त पुश्यैत्या वा एषत् सर्वदेवत्यादि या दीक्षयति सर्वाभिरेवैनं देवताभिर्दीक्षयति सर्गाक्षरं प्रथमं पदमष्टाक्षराणि त्रीणीयानि त्रीणितान्यष्टावुपन्द्रियाणि सत्पारितान्यष्टो याक्ष ेन गायित्री यदेकादशाक्षरातेन तिष्ठद्यत्वादशाक्षरातेन जगति सा वा एषत्सर्वा नन्दाैभिर्त्येक्षै सप्ताक्षरं प्रथमं सप्त पशुनेवावरन्ध एकस्मादक्षराधनाहां मनश्या उप जीवन्ति पूर्णया जहोति पूर्णैः प्रजापति प्रजापतेरा या जोन्यो ना प्रजापति प्रजासजनप्रजा नागो सुष्ठे सा मे वै देवेभ्यो यज्ञायाधिष्ठमाने कृष्णो रूपं कृत्वा वक्रम्यातिष्ठे मन्यन्तयं मायिमे उपावत्स्य दस्यैदं भविष्यति ऋपामन्त्रयन्त्रे नोरात्रयोर्मर्तेष्णा जनश्रैषदाम्नो ेन योस्तत्र येवावरुन्धे कृष्णा जिनेन दीक्षय धि ब्रह्मणो वा एतद्रोपं यकृष्णाजिनं ब्रह्मणैवेन दीक्षय देवान् शिक्षमाणस्य देवेत्यार्भावृता सोमस्य क्रयापोरा सोमस्य क्रयापोऽ स्वर्गं लोकञन्दवोर्जं दो यधत्य शिष्यदतेश्वराभवन्नोत्मैराभवत्योर्जमेवात एव स्मा ऊर्जितुस्मान्मध्यत ऊर्जाभञ्जत ओर्जं वै पुरुषस्य नाभ्यैमेध्यमध्यतैवास्यामे ीन्द्र वृत्ता यं प्राह रक्षत्रेन्द्री यन्दते शरा भवन्तच्छरावैरा यच्छेणैव साक्षात् भवति त्रिवृत्वयि प्राणस्त्रिवेव प्राणं मध्यदयमाने ददाति वृत्ति ीक्षेत्रेण पत्नीन्द्रो जायत् सौमन्यवाजाय निष्यदेश इदं भविष्यति सोदवशा हितां मृगे शून्यमा कृष्णविषाणां प्रयच्छदयोमेव यज्ञं करोमि ओषदेशदयफलं गृह्णन्ते यद्धस्तेन कण्डो यदपामनं प्रजास्यर्यज्ञं भावुका कृष्णविषाणया प्रजानागीता जनपुरा दक्षिणा भ्योयतो कृष्णविषाणामवचुतेज्ञप्रा दक्षिणाभ्योयतो कृष्णविषाणामवचुतेद्यो निजानाम् परापादु वा स्यान् गीता दक्षिणा स चात्वालय कृष्णविषाणाम् प्रास्य धियो निर्वै यज्ञस्य चात्वालयो कृष्णविषाणा यो नावेवयोनिन्ददाति यज्ञस्य द्वयो नित्वाय ै देवेभ्यवाक्राम्यज्ञाया तिष्ठमाना साभो या, या तोणवेया वीणायान्यं प्रयच्छति वाचमेवा वृन्धा ओदम्बरो भवत्योर्वा ऊदम्बरोच्यमेवा संहिता भवति मुखत एवास्मा ऊद्यं दधाति तस्मान् मुखदोच्याभञ्जते क्रियते सोमे मैत्रावरुणाय दण्डं प्रयच्छति मैत्रावरुणोय पुरस्तात् ृत्यभ्य वाचं विभजता मृत्युजो यजमाने प्रतिष्ठापयन्ति स्वाहा यज्ञं मनसे पुरुषो यज्ञमभिगच्छति स्वाहा वा पृथिवीभ्यामित्या हत्या वा पृथिव्या हि यस्वाहोरोरन्तरिक्षादित्याहान्तरिक्षे हि यस्वाहा यज्ञं वा दादारवैत्यावदेश यज्ञस्त्वमेव साक्षादारभते मुष्टिकरो ऋच यच्छति यज्ञस्य श्रुत्यादिष्टायं रामकृपा ेवेभ्यैष्येभ्यप्राहनपुरानक्षत्रे वाचं विसृजेत्य पुरा नक्षत्रे नक्षत्रे सुव्रतं विवाचं विसृजति यज्ञव्रत वैदित यज्ञमेवाभिवाचं विसृजति विसृजे विष्णुवियज्ञेनैव यज्ञको सन्तनो दिदेवन्द्रियं मनामह इत्याह यज्ञ ृदयचपारामासत्त्वशैत्या हविश्यमेवावृन्धे ब्रह्मवादिना वदन्द्यः दव्यन्दीक्षुतस्य गृहा देवा विर्वेदेजमानस्यायजुयाजन्न देवामनो जाता मनोयुजैत्याहप्राणावि देवामनो जातामनोयुजस्य श्वेव परोक्षंहो तन्नेव हृदन्नेवाहुतज्ञागुंसुजिगागुंसञ्जज्ञः खलु वै रक्षोहांसुजागृहै सुबन्धि महेत्यामेवाधिपाकृत्वा स्वमिति रक्षसामपहत्या व्रत्यमिवा एषकीक्षितस्वपि दत्वमज्ये व्रतपादीत्यानां व्रतमालम्भयति देव आमर्त्येष्वेत्या देवाव्येषुत्वं यज्ञेष्वी जैत्या हैतं यज्ञेश्वेण देव वैदीक्षितासुसुभुषेन्द्रियं देवताक्रावविश्वे देवाभिमापवृत्रं नित्याहेन्द्रियेणैवैनं देवताभिस्सन्नय दे देतजन्म भूयाद्यावत एव पशूनभिदीक्षे तावन्तोऽस्य पशवस्योरास्वे यत्सोमा भूयो भरेत्याः परमिता देव पशोनवरुन्धे चन्द्रमसि मम भोगाय भवेत्याह यथा देवतमेवैनाप्रतिगृह्णातिभायवे त्वावर्णाय त्वे दयदेवमेतानानुदिशेदयथा देवतं दक्षिणागमयेता देवताभ्यो वृष्ये दय देवमेताशति यथा देवतमेव दक्षिणागमयदिनदेवताभ्यावृष्यते देवीरापो देवीरापोपान्नपादित्याहयत्वामेत्यमावक्रमिशमिति वा वैददाहाच्छिन्नन्तम् पृथिव्या अनुयेषमित्याहसेतुमेव कृत्वा ेदे वैजनमध्यवसा यदिशोधनप्रजानन् त्वया प्रजा त्वया प्रजानामे दिशा प्रवेतरमृणैमत्रायणा एव यज्ञावदयनासंन्य तस्मादादित्यप्रायणेय यज्ञानामादित्य उदयनेयः पञ्चदेवतान्धे ्याघस्वस्ति मयराजीमेव तयाति सम्प्राजानक्षिणाजीमेवत यातिप्रजानादिपथ्यागस्वस्ति मित्राग्स्येषोमोताभ्यामेवानुपश्यज्ञेशोमा विश्वास वितारं यजदि सप्रसोग एवानुपश्यति स वितार विश्वादियं प्रतिष्ठायानुपश्यत्य मारुते च मन्वाह मरुतो वै देवानां विशो देव विशङ् खलु वै कल्पमानं च मन्वाह विषा ब्रह्मवादिना वदन्ति प्रयाजवदनो याजं याजव प्रयाजमुदयनीयमे वै प्रयाजा अमे प्रयाजा प्रजानो याजाय प्रयाजानन्तर्यादात्मानमन्तर्या याजव देवानो याजव प्रायणीयं कार्यं प्र याजवद नो याजवदुदयनीयन्नात्मानमन्तरे धनप्रजान्न यज्ञपरा भवनप्रायणेयस्य निष्कास उदयनीयमभिनर्वपति सैव सा यज्ञस्य सन्त्या प्रायणेयस्य याज्ञा यत्ता उदयनीयस्य याज्ञागमलोकमानो स्याद्या प्राये पुराणवाक्यास्तादयनीयस्यातिष्ठति कत्रोश्च वै सुणे चागुंसा कत्रोषु वर्णे मजेत्सा प्रवेत् तृतीयस्यामितो दिवसामस्तमाहृते वै कद्रो रसोऽसु वर्णे छन्दागुंसुतो वर्णेया सा प्रवेदस्मै वै पितरो क्षरा सती साक्षरे अमीय तामो सा दक्षिणाभिश्च तपसा चागच्छत्तस्मात् लोके माध्यन्ति दक्षिणाक्षरा समगत्य सत्यायत्रे कनिष्ठा कंसति यज्ञमुखम्बरीयायदेवादस्वार्यैस्विने मुखेन स्मात्रे तस्मात् वेद्रु स्त्रीकामावेगं धर्वा स्त्रिया निष्क्रीणामेष्कस्त्रियमेकहायनी कृत्वा दया निरक्रीणं सा रोहितरूपं कृत्वा गं धर्वेभ्योपक्रम्यातिष्ठत्तद्रोहितो ब्रह्मगं धर्वा अवदन्न एवं विद्वानभिजन्येभ्य एव क्रीणाति वाचैवे सर्वया क्रीणाति तस्मादेकहाय नामनुष्यावाचकोटया कन्यया काणया श्लोणया सप्तशिपया क्रीणाति सर्वैवे यच्छेतया क्रीणीयाद्युश्चर्मायजमानस्याद्य कृष्णया नस्तरणी स्यात् प्रमायकायजमानस्यादित्यरूपया वात्री स्यात् स वा न्यञ्जनीयात्मवान्योजनीयादरणयाबिङ्गाक्ष्याक्रीणाचस्वैवेनम् देवतया क्रीणादि तद्धिरण्यमभवत् तस्मादभ्य हिरण्यम् कुर्वन्ति ब्रह्मवादिना वदन्ति कस्मात् सत्या प्रजा प्रवीयन्ते सन्मदीर्जायन्त इतिरण्यम् घृते तस्मात् प्रजा प्रवीयन्ते सन्मदीर्जायन्त एतद्वा अग्ने प्रियन्दा मय छृदन्ते हिरण्यमीयन्ते शुक्रतनोदम् ृत्यै निश्चर्कं प्रजानां प्रजननाय वाग्क्रेणेजो रसेत्याहैत्यमनसा जयदेवाधृता जुष्टा विष्णवैत्याहैत्या वैष्टेनैवेष्टान्ते सत्यसवैत्याह समिद्रन्दे काण्डे काण्डे वै क्रियमाणे यज्ञा चतुर्यस्य चतुर्यस्य चक्षरारवारक्षन्थामग्रेणीत्याशाद्वाचा वदति मनासीत्या हेद्यमनसाभिगच्छति क्षिणासेत्या दक्षिणा केशासे क्षत्रिया सेत्याः क्षत्रिया केशादिद्रस्य वेदस्येष्णेत्या हैदेवादित्यप्रायणीयमादित्यस्तस्मादेव मा हैदवद्धा वेदास्याद्य स्यात् माय गोयजमानस्यात्यर्नगृहीतावाद्रज्ञे स्यात् समान्यञ्जनीया तन्मान्योजनीयान्मित्रस्वापदि पद्नात्त्याह मित्रो वै शिवो देवान्तेनैवैनाम्पद्नादिभूषाध्वन वै भूषे मामेवास्यायाध्यक्षायैत्याहेन्द्रमेवास्याध्यक्षेन्द्रो माता मन्यतामनपितेत्याहानमदयै नीणाति सा देवि देवमध्येत्याह देवी एष देव स्वा मेन्द्राय सा ममित्याहेन्द्रायदे रुद्रस्वावर्तयेद्रो वै क्रूरो देवानान्ती पुरस्कार क्रूरमिव वा एतद् रुद्रस्य स्वस्य सोमसखा पुनरेत्याः वाचैव विक्रीय पुनरात्मनवाचम् एवम् वेद षट्पदान्यषहं मान्यादिपद चतुर्थस्यायने यावत्येव पशोनेवावरुन्धे सप्तग्राम्या सप्तछन्दावरुद्धित्याह रूपमेवास्या एतन्महिमानम्यादिष्टे बृहस्पतिरुन्मत्याहब्रह्म वै देवानां बृहत्पतिर्ब्रह्मणैवास्मै पुरुषोनवरुन्धे रुद्रावतिभिराजेत्याह वृत्यै पृथिव्या स्वामूर्धन्नाज्रर्म्येवैजन इत्याहृथिव्यायत्येवण्ये कृतवदिवास्येदात्कृतमपेतस्मादेवर्यवाहुन्य धर्यै स्यात् रक्षागं सेज्ञमुपास्यजवत्येव जहो दिनान्धर्यज्ञको रक्षागंसि गृन् ण्डे वै क्रियमाणे यज्ञागुसन् च वयं विष्मेत्यापुरुषोयञ्च योद्धेष्ठीश्चैनन्देदयोरेवानन्दरायं देवाकृन्दति पशो वै सक्रीन्यावत्मोदो सम्भवति पशुमेवावरुन्धे स्मेरायै सम्भवत्यात्मानमेवाध्वर्युभ्य त्वरायै दीयमाना येच्छ दीयमाना एव रयीन्द्रेषु धातुर्गेव दत्तश्चीमते हा वै पशूनां निधनागौरोपकृतरूपमेव पशुशु दधात्यस्मै वै लोकायकार पुष्माहनियायज्ञौ भवेदस्मिन् लोके पुष्मान् स्यात् लोके पुष्मान् स्याद्भयो भयो देवैन्य लोकय पशुमन्तम् करोति ब्रह्मवादिना स्वामा स्वाचित्रा स्मिन् यदापन्नं तादृगेव सोमविक्रयणमप्यैतस्मात् सोमविक्रये क्षोधिकौरुणाहस्माहोपवेशि सोमविक्रयण एवाहन्तु वृन्ध इति पशूनान् शर्मन्ते पशूनैवावरुन्धे पशुवो हि तृतीयगो सवनयङ्कामयेता पशुस्यादित्युर्क्षतस्तस्य मिमेतक्षं वा अपशुव्यस्तस्य मिमीतैतद्वै पशूनागोरूपगोरूपेणैवास्मि पशूनवरुन्धे पशुमानेव भवत्यपामन्ते सरसमेवैनं क्रीणा यमा ज्योतीत्याहामेवैनं कुरुते शुक्रस्यैग्रह च्छन्देव कोंसभितारमित्य सत्यामिच्छन्दा मयि सर्वाणि छन्दा कुंस सर्वेऽभिरेवेच्छन्दोभिर्मिमे देवष्म वा एषा छन्दसा यददिच्छन्दा यददिच्छन्द सत्यामि देवष्मै वेन कंसपानाना त्यैकैकयोत्सर्गं निमीते यातयां नि या यातयां निजैवेनं निमेते तस्मान् नाला वीर्या अङ्गुलयः सर्वा स्वङ्गुष्ठलिगुण्णाजतस्मात् स्वलावत्यभिरङ्गुलैस्तस्मात् सर्वालतञ्जलजयत्सः सर्वाभिर्म्येदसर्गश्रेष्ठा अङ्गुलयो जायैरन्यैकैकयोत्सर्गं निमेते तस्मात् विभक्ता जायन् देवं जगतो दृशामिवक्षरान्तो यज्ञमेवावरुन्धे पञ्च कृत्वस्तो विराजैवान्नात्यमवरुन्धे यद्यदृशा निमीते भूतमेवावरुन्धे यत्तोष्णे भविष्यत्य त्वैतावानेव सोमस्याद्यावन्तं निमीते यजमानस्यैवस्यान्नापि सदस्यानां प्रजाभ्यस्त्वेत्युभमो सदस्यान्ना भज दिवासोर्वाभिदेवेन्दर्धै ेदो प्राणा यद्वेद्युमन यदि प्राणमेव पशुषु तथा दिव्याना यद्वेद्यनमेव पशुषु तथा प्राणा न जहति यत्कलयादे क्रीणानि जपणेताशुक्रमेव एवेनं क्रेणाक्त्रडः अक्रेणा देवन् नर्पा नर्पा वन्नि लेवन् दिव्य यज्ञस्य क्रेणादि विधानापिनां क्रेणादि विधानास्यावरक्षी मासः क्रेणादि सर्वदेवक्त्रं वैवास सर्वं अभ्य एवेनं देवदा अभ्य क्रेणादि स सम्बक्तं तेदश अक्षरा विराडन् नमः विराधिवान् नाद्यवरन् धेतोदस्तनाः प्रजापतये दुर्नायत्याः सुख्ये एव दुरत्त्वर्ज्यन् नन्धा आत्मनानाः भ्रस्कः गच्छति श्रीयं प्रशूना आत्मोदय एवं वेद शुक्रन्दे शुक्रेण क्रीणानीत्याहे देवावैन हिरण्येन सोमं क्रीणन् विक्रेश्येन पुनरादधिवात्मन् दत्तेऽस्मे ज्योति सोमविक्रीणितमैत्याेवेजमाने दधाति तमसा सोमविक्रयणमर्पयेद्रहन्यात्तन्दशोस्तागोदमागोध ीत्याहार्पा भवन्ति तमसा सोमविक्रयणं विध्यति स्वानप्रायत्याहैतेवामुष्मिन्लोके सो मम रक्षन्तेभ्यो ममाहरणदेभ्यः सोमक्रयणान्नामदिशे क्रीतोस्य सोमस्या विष्णुम् लोके सामकम् रक्षन्ति वरुणो वै क्रेतस्वद्धमित्रा नै सुमित्र्याः इन्द्रस्यौरमावित्याह देवा वै यो मित्रेण इन्द्रौरो दक्षिणा एतहेन्द्रयोजते तस्मादेव महोदायुषा स्वायुषेत्याह देवता एवान्यारभ्य तिष्ठत्य न्दं मैत्रं देवतया समर्थयति वासता पर्यानस्यति सर्वदेवत्यं नैवासत्सर्वाभिरेवेण देवताभिः समर्थयच्च रक्षसामपहजीवने शुव्यन्तरिक्षन्त हवने शैव्यन्तरिक्षन्त कृतमित्याह हुप्सहि कृतं वरुण विक्षक्तिमित्याह वरुणो हि विषकमित्याह्रावित्याह यमानस्यैवैषयज्ञस्यान्त्यै वर्णवा एष यजमानमस्वामित्रस्य वर्णस्य यक्षस इत्याहशासो ष्ठतेतौ सम्भवन्तौ या खल्वारभ्ये सौमेयं पशुमानभत आत्मनिष्क्रयण एवास्य सदस्मात्मस्य नाश्यं पुरुषनिक्रयण एवं वा इन्द्रो वृत्तमहन्निधे लग्ने सौमेयं पशुमानभदेवार्तघ एवास्य सदस्माद्वाश्रं वा जरति स्व इति षष्ठकाण्डे प्रथमः प्रश्नः समाप्तः